योऽध्यायः अर्जुन उवाच्यायसी चेत्कर्मणस्ते मता बुद्धिः जनात्तना कर्मणि भो निश्चेत्या येन श्री ज्ञानयोगेन साङ्ख्यानाम् कर्मयोगेन योगिना च सन्न्यसनादेव सिद्धिम् समधिगच्छति न हि कश्चित् क्षणमपि जा शख कर्म सर्वका य आस्ते मनसा स्मरम् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स कर्मयोगं असक्तग स विशिष्यते 是鞋鞋鞋鞋鞋鞋 न सन्तो मुच्यन्ते सर्वकविषयी भुञ्जते ते त्वघम् पापाः ये पचन्त्यात्मकारणा यज्ञः कर्म समुद्भवः क्षरसमुद्भवम् कस्मात् सर्वगतं ब्रह्मा नित्यम् यज्ञे प्रतिष्ठितम् <प्रिण> चक्रम् नानुवर्तयतिह यः अखायुः इन्द्रियारामो मोघम् पार्थ सजीवति त्मरतिरेव स्यात् आत्मतृप्तश्च मानव आत्मन्येव च सन्तुष्टः कस्य न विद्यते थो नेह कशन न चाभू कशिद्यप्रय तस्द कार्यं कर्म समाचर सचर असक्त्याचर कर्म परमाति पूरष कर्मणैव हि संसिद्धिम् आस्थिताजनकादयः लोकसङ्गगमेवापि सम्पश्यन् कर्तुमर्हसि के ेष्ठ तत्तदीवेतनुजनग स यत् प्रमाणम् कुरुते लोकः तदनुवर्तते जिज्ञगम् नवर्तेयं जातु जेतः मम वर्मावर्तन् ते मनुष्यात् पार्थ सर्वशग सङ्करस्य च कर्तास्या उपहन्या विद्वा तथा सिकीर्षुः लोकसङ्ग्रहम् Yeah, yeah. tan krishna vidho mandane krishna nu na ष्टा न चेत सजा सदृशम् चेष्ट स्वस्या प्रकृते प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्य धर्मो निपुणः परधर्मात स्वनुष्ठितात् स्वधर्म जुनोग्वाच अथ केन प्रयुक्तोऽयम् पापम् चरति पूरुषग अनिच्छन् अपि वा lena mi kha mai आवृतम् ज्ञानवेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेया दुष्पु इंद्रििया पराण्याहु इंद्रिभ्य परं मनसस्तु परा बुद्धि यो बुद्धे परतस्तु सह ेवम् बुद्धेह परम् बुद्ध्वा संस्तभ्यात्मानम् आत्मना जहिशत्रं महावा कामरूपं दुरासदम् ति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः